अथाष्टात्रिंशः सर्गः स तु कृत्वा सुवेलस्य मतिमारोहणम् प्रति लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् विभीषणम् च धर्मज्ञमनुरक्तम् निशाचरम् मन्त्रज्ञम् च विधिज्ञम् च श्लक्ष्मया परया गिरा सुवेलम् साधु अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामि माम् लङ्कालोकयिष्यामो निलयम् विज्ञातो न वृत्तम् तस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसा एको हि कुरुते पापं कालपाशवशम् गतः नीचेनात्मापचारेण कुलम् तेन विनश्यति एवम् सम्मन्त्रयन्नेव सक्रोधो रावणम् प्रति रामः सुवेलम् वासाय चित्रसानुमुपारुहत् पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत्समाहितः सशरम् चापमुद्यम्य सुमहद्विक्रमे रतः तमन्वारोहत्सुग्रीवः सामात्यः स विभीषणः नीलो मैन्दो द्विविद एव गजो गवाक्षो गवयः शरभो गन्धमादनः पनसः कुमुदश्चैव हरो जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः दुर्मुखश्च महातेजास्तथा शतबलिः चान्ये च चा बहवो ते वायुवेगप्रवणास्तम् गिरिम् गिरिचारिणः अध्यारोहन्त ददृशुः शिखरे तस्य विषक्तामिवखे पुरीम् ताम् शुभाम् प्रवरद्वाराम् प्राकारवर शोभिताम् लङ्काम् राक्षसम्पूर्णाम् ददृशुर्हरियूथपाः प्राकारवर संस्थैश्च तथा नीलैश्च राक्षसैः ददृशुस्ते हरिः श्रेष्ठाः प्राकारमपरम् ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः मुमुचुर्विविधान्नादांस्तस्य रामस्य पश्यतः ततोऽस्तवगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तता ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः स लक्ष्मणो यूथ प यूथ संयुतः सुवेलपृष्ठेऽन्यवसद्यथा सुखम् इत्यादर्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे अष्टात्रिंशः